एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः ये राजन्नाम तस्तां कीर्तयिष्यामि भारत धाता मित्रोर्यमाशक्रो वरुणस्त्वंश भगो विवस्वान्पूषा च सविता दशमस्तथा दशस्तथा द्वादश विषुरुच्य जघन्यजस्तु सर्विनाक दिते पुत्रो हिण्यकशिपुस्मृत नाख्या ना पंचपुत्र महात्म प्रह्लाद पूर्वजस्हलाद तदनंतर अनुह्लादस्तृतीयोऽभूत् तस्माच्च शिबिबाष्कलौ प्रह्लादस्य त्रयः पुत्राः ख्याता सर्वत्र भारत विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत विरोचनस्य पुत्रोऽभूत् बलिरेकः प्रतापवान् बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः रुद्रस्यानुचर श्रीमान्महाकालेतियं विदुः चतुस्त्रिंशद्दनुः पुत्राः ख्याता सर्वत्र भारता तेषां प्रथमजो राजा विप्रचित्तिर्महायशा शम्भरो नमुचिश्चैव पुलोमाचेति विश्रुतः असिलोमाचकेशी च दुर्जयश्चैव दानवः अयशिरा अश्वशिरा अश्वशङ्कुश्च वीर्यवान् तथा गगनमूर्धा च वेगवान्केतुमांश्च सः स्वर्भानुरश्वोश्वपतिर्वृषपर्वाजकस्तथा अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः यिषुपादेकचक्रश्च विरूपाक्षो निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा शरभः शलमश्चैव सूर्याचन्द्रमसौ तथा